मार्कण्डेयपुराणम् अध्यायं तर्टीन् पुत्र उवाच अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे समतिदेघवामरोधं निपाने कृतवान् पुरा विपाकात् कर्मणस्तस्य नरकं भृषदारुणम् सम्प्राप्तोऽग्निशिखाखोरमयोमुखगाकुलं यन्द्रपीडनगात्राश्रुक्प्रवाहोद्भुतकर्दमं विशस्यमानदुष्कर्मितन्निपादरवाकुलं पात्यमानस्य मे तत्र महातापार्तितप्तस्य तृष्णादाहान्वितस्य च तत्राह्लादकरः सद्यः पवनः सुखशीतलः करम्भबालुकाकुम्भमध्यस्थो मे समागतः तत्सम्पर्कादशेषाणां नाभवद्यादना नृणां मम चापि यथा स्वर्गे स्वर्गिणां निः परा किमेददिति चाह्लादविस्तारस्तिमिते क्षणैः दृष्टमस्माभिरासन्नं नररत्नमनत्तमम् याम्यश्च पुरुषोऽघोरो दण्डहस्तोशनिप्रभः पुरदो दर्शयन्मार्गमिधि एहि दिवागध पुरुषः स तदा दृष्ट्वा यादना शतसङ्कुलं नरकं प्राहतं याम्यं किङ्करं कृपयान्विदः पुरुष उवाच धोयाम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतं येनेदं यादनाभीमप्राप्तोऽस्मि नरकं परम् विपश्चिदिति विख्यातो जनकानामहं कुले यादो विदेहविषये सम्यक् मनुजपालकः यज्ञैर्मयेष्टं बहुभिर्धर्मदः पालितामहि नोत्सृष्टश्चैव सङ्ग्रामो नादिधिर्विमुखो गतः पितृदेवर्षिभृत्याश्च न चापचरिता मया कृधा परस्त्री विभवादिषु पर्वकालेषु पितरस्थितिकालेषु देवदाः पुरुषं स्वयमायान्ति निपानमिव यतस्ते विमुखा यान्ति निःश्वस्य गृहमेधिनः तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि पितृनिश्वासविध्वंस्तं सप्तजन्मार्जितं शुभं त्रिजन्मप्रभवं दैवो निश्वासो हन्ध्यसंशयं तस्माद्दैवे च पित्र्ये नित्यमेवोद्यदो भवं सोऽहं कथमिमं प्राप्तो नरङ्गभृषदारुणम् यीमार्कंडेयपुराणी पिता पुत्र नामत्रयो नाम दशोध्याय